भगवद्गीता चाप्टर् एय्ट् वर्षस् वन् टु टेन् अथ अष्टमोऽध्यायः अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते अधियज्ञकथं कोत्र प्रयाणकाले च कथं ज्ञेयोऽसि श्रीभगवानुवाच अक्षरं ब्रह्मपरमं स्वभावोऽध्यात्ममुच्यते भूतभावोद्भवकरो विसर्गकर्मसंस्मितः अधिभूदं क्षरो अधियज्ञोऽगमेवात्र देहे देहमृदां वरा अन्धकाले जमामेव स्मरन्मुक्त्वा कले वरम् यत्प्रयाति समद्भावं यादिनास्त्यत्र संशयः यं यं वापि स्मरन् सं मे वैदिकौ देय सदा तद्भावभावित तस्मात् सर्वेषु कालेषु मामनुस्मरयुध्य च मय्यर्पितमनोबुद्धिर्मा मे वैश्यस्य संशयथा परमम् पुरुषम् दिव्यम् व्याधिवार्तानुचिन्तयन् कविम् पुराणमनुशासिता रमणोरणीयांसम् अनुस्मरेद्यः सर्वस्य धादारमचिन्त्यरूपमादित्य वर्णम् प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव भृगोर्मध्ये प्राणमावेश सम्यक् सदं परं पुरुषमुपैदि दिव्यम् भगवद्गीता चाप्टर् एय् 11 इलेवन्ट् ट्वेन्टि यदक्षरं वेदविदो वदन्ति विशन्ति यज्ञतयो वीररागाः यदि छन्दो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये सर्वद्वाराणि संयम्य मनोहृदि निरुध्य च मोदन्यादायात्मनः प्राणमास्तिदो योगधारणाम् ओमित्येदाक्षरं ब्रह्म व्याकरन् मामनुस्मरन् त्यक्प्रयादित्यजन् देहं स यादि परमां गतिम् अनन्यदेदासदं यो मां स्मरति नित्यशः तस्याहं सुलभत्पार्थनित्ययुक्तस्य योगिनः मामुपेत्य पुनर्जन्मदुःखालयमशाश्वतं नाप्यवन्दि महात्मानः संसिद्धिं परमां गदाः आ ब्रह्मभुवनाल्लोगा पुनरावर्तिनोऽर्जुन मामुपेत्य तु कौण्डेय पुनर्जन्म न विद्यते सहस्रयुगपर्यन्तमहर्य ब्रह्मणो विदुः रात्रिं युगसहस्रान्तां देहो रात्रविदो जनाः अव्यक्ताद्व्यक्तयः सर्वा प्रभवन्त्यहरागमे जात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञगे भोधग्रामस्य एवायं भूत्वा भूत्वा प्रलीयते जात्र्यागमे वश पात्र प्रभवद्यहरागमे परस्तस्मात्तु भावोऽन्योव्यक्तो व्यक्तात् सनातनः यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति भगवद्गीता चाप्टर् एय्ट् <laughs> वर्षस् ट्वेण्टि वन् टु ट्वेण्टि ऐट् इत्युक्तस्तमाहु परमां गतिम् <laughs> यम् प्राप्य न निवर्तन्ते तद्धामपरमं मम पुरुषः सपरः पार्थभक्रिया लभ्यस्त्वनन्यया यस्यान्धस्तानि भूतानि येन सर्वमिदं पदं यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः प्रयान्ति तं कालं वक्ष्यामि भरदर्षभा अग्निर्ज्योतिरथ शुक्लषण्मासा उत्तरायणम् तत्र प्रयादा गच्छन्ति ब्रह्म ब्रह्मविदो जनाः धूमो रात्रिस्तथा तत्र चान्द्रमसं ज्योगिर्योगी प्राप्यमि वर्तते शुक्लकृष्णे गदीह्येदे जगदशाश्व मदे ये गयात्यनावृत्तिमन्यया गया वर्तते पुनः नैदे हृदि पार्थजनान् तस्मात् सर्वेषु कालेषु योगयोग्रो भवार्जुन वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्यफलं तत्सर्वमिदं विदित्वा योगी परं ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु अष्टमोऽध्यायः